संहितायाञ्च सर्वेषां स्थितस्योपस्थितस्य च विपदस्य च धर्मस्य क्रमधर्मस्य पारगः गाथा सामानुधर्मज्ञः साम्नाम् परमवल्गुणान् आत्मना सर्वमोपाभ्यकृतिमान्कृत्यवित्तथा योक्ता बहुविधे मनो वरः विदितार्थः समश्चैव निगमसंशयान् अर्थनिर्वचनैनित्यं संशयच्छिदसंशयः प्रकृत्या धर्मकुशलो नानाधर्मविशारदः लोपेणागमधर्मेण सङ्क्रमेण च वृत्तिषु एकशब्दांश्च नानार्थानेकार्थांश्च पृथक् श्रुतीम् पृथगार्थाभिधानश्च प्रयोगाणामपेक्षिता प्रमाणभूतो लोकस्य सर्वाधिकरणेषु सर्ववर्णविकारेषु नित्यं सकलपूजितः स्वरे विविधे वृत्तेषु विविधेषु समस्थानेषु सर्वेषु समां उद्देश्यानां समाख्याता सर्पमाख्यातुमितिशन् अभिसन्धिषु तत्त्वज्ञः कालधर्मेण निर्दिष्टं यथार्थं च विचारयन् चिकीर्षितं च यौवेत्ता यथा लोकेन विभाषितं च समयं भाषितं हृदयङ्गमम् आत्मने च परस्मै च स्वरसंस्कारयोगवान् येषां स्वराणां वेत्ता च बोद्धा च वचनस्वरान् विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा ता बोद्धाहिपरमार्थौश्च विविधांश्च व्यतिक्रमान् अभेदतश्च बहुशो बहुशश्चापिभेदतः वचनानां ना च समीक्षिता नानार्थकुशलस्तत्र तद्धि च सर्वशः परिभूषयिता वाचां वर्णतः प्रत्ययास्य समाख्याता नियतम् प्रतिधातुकम् पञ्चच्चाक्षरजातानि स्वरसञ्ज्ञान्यानि च